ततो विराटम् प्रथमम् युधिष्ठिरो राजा सभायामुपविष्टमव्रजत् वैडूर्यरूपान् प्रतिमुच्य काञ्चना नक्षांस कक्षे परिगृह्य वाससा नराधिपो राष्ट्रपतिम् यशस्विनम् कौरववंशवर्दनः महानुभावो नरराजसत्कृतो दुरासदस्तीक्ष्णविशो यथोरगः बलेन रूपेण नरर्षभो महान पूर्वरूपेण यथामरस्तथा महाभ्रजालैरिव संवृतोरविर्यथा न लो भस्म वृतश्च वीर्यवान् तमापतन्तम् प्रसमीक्षपाण्डवम् विराटराडिन्दुमिवाभ्रसंवृतम् समागतम् पूर्णशशिप्रभाननम् महानुभावम् न दृष्टवान् मन्त्रि द्विजान्सूत मुखान्विषस्तथा ये चापि केचित् परितः समासते पप्रत्यकोऽयम् प्रथमम् समवेक्षते सभां। न भविता नरोत्तमः पथि प्रव्या इति मे मनोगतम् न चास्य समीपतो भ्राजति चायमिन्द्रवत् शरीरलिङ्गैरुपसूचितो ह्ययम् मूर्धाभिषिक्त इति मे मनोगतम् समीपमायाति च मे गतव्यथो यथा गजस्तामरसिम्मतोत्कटः वितर्कयन्तम् तु नरर्षभस्तधा युधिष्ठिराभ्येत विराटमब्रवीत् सम्राड् विजानात्यह जीवनार्थिनम् विनष्ट सर्वस्वमुपागतम् द्विजम् इहाहमिच्छामि तवा घनान्तिके वस्तुम् यथा कामचरस्तथा विभो